अथ श्रीमहाभारते आदिपर्वणि अष्टषष्ट्यधिकशततमोऽध्यायः वैशंपायन उवाच वसत्सुतेषु प्रच्छन्नं पाण्डवेषु महात्मसु आजगामाथ तां द्रष्टुं व्यासः सत्यवतीसुतः तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः प्रणिपतवाद्यं तस्थु प्राजलस्तदा सर्वासीना मुनिरब्रवीद प्रच्छ पूजि पाथ प्रीतिपूर्व अभी धर्में वर्तेध्व शास्त्रेण चरंतपा अजा पूजा वह पूजाहेशुयते अथ धर्मद्वाक्य मुक्त स भगवान् ऋषि विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत् व्यास उवाच आसीत्तपोवने काचिदृशैः कन्या महात्मनः विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता कर्मभिः दुर्भगा समपद्यत नाद्यगच्छत्पतिं सा तु सती ततस्तप्तुमथारेभे पत्यर्थमसुखा ततः तोषयामास तपसा सा किलोऽग्रेण शङ्करम् तस्याः स भगवान्स्तुष्टस्तामुवाच यशस्विनीम् वरं वरय भद्रम् ते वरदोऽस्मीति शङ्करः अथेश्वरमुवाचेदमात्मनः सावचोहितम् पतिम् सर्वगुणोपेतमिच्छामीति पुनः पुनः तामथः प्रत्युवाचेदमीशानो वदतां वरह पञ्चते पतयो भद्रे भविष्यन्तीति भारताः येवमुक्ता ततः कन्या देवं वरदमब्रवीत् एकमिच्छाम्यहं देव प्रभो पुनरेवाब्रवीत् देव इदं वचनमुत्तमं पञ्चकृत्वया ह्युक्तः पतिं देहीत्यहं पुनः देहमन्यं गता यास्ते यथोक्तं तद्भविष्यति द्रुपदस्य कुले जज्ञे सा कन्या देवरूपिणी निर्दिष्टा भवतां पत्नी कृष्णा पाश्यत्यनिन्दिता पाञ्चालनगरे तस्मान्निवसध्वं महाबलाः सुखिनस्तामनुप्राप्य भविष्यथ न संशयः एवमुक्त्वा महाभागः पाण्डवान् स पितामहः पार्थानामन्त्र्यकुन्तीञ्च प्रातिष्ठतमःत इति श्रीमहाभारते आदिपर्वणि चैत्ररथपर्वणि द्रौपदीजन्मान्तरकथने अष्टषष्ट्यधिकशततमोऽध्यायः